श्रीमद्भागवतमहापुराणं नवमस्कन्ध अथ राजा निमिके वंशकावर्णन् शेषोकुवाच निमेरिक्ष्वाकुतनयो वसिष्ठम् आरभ्यसत्रं आरभ्य सत्रं सोऽप्याह शक्रेण प्रागुतोऽस्मि भो प्रतिपालय तृष्णीमासीद्गृहपति सोपिन्द्रस्य करोन्मुखम् निमेश्चलमिदं विद्वान् सत्रमारवतात्मवान् ऋत्विग्भीरं परेस्तावन्नागमज्ञावता गुरुः शस्य प्रतिक्रमं व्यक्ष्य निवर्त्य गुरुरागतः अशपतिं पतताद्देहो निमे पण्डितमानिनः निमे प्रति ददौ शापं गुर्ववे धर्मवर्तिने तवापीपतताद्देहो लोभाद्धर्ममजानतः इत्युत्ससर्जस्वं देहं निमिरध्यात्मकोविदः मित्रावर्णयोर्जज्ञे उर्वश्यां प्रपितामह गन्धवस्तन्तुषु तद्देहं निधाय मुनिसत्तमाः समाप्ते सत्ययागेथ देवान् च राग्यो जीवत जीवतु देहोऽयं प्रसन्ना प्रभो यदि तथेत्युक्ते निमीप्राह मा भून् मे देहबन्धनं यस्य योगं न वाञ्छन्ते वि योगभय कातराः भजन्ति चरणाम्भोजं मुनियो हरिमेधसा देहं नावरुरुहं सुखदोकम् दुःखशोकभयावहं सर्वत्रास्य यतो मृत्युर्मस्यानां मुदके यथां देवावचुः विदेह उष्यतां कामं लोचनेषु शरीरिणाम् उन्मेषणनिमेषाभ्यां लक्षितोऽध्यात्मसंसितः अराजकभयं नृणां मन्यमानां महर्षयः देहं मम सन्मनिभे कुमारसमजायत जन्मना जनकशोभूद्वै देहस्तु विधेहज मिथिलो मथनाज्जातो मिथिलायेन निर्मितां तस्मादुदावसु तस्य पुत्रो भुन्नन्दिवर्धनः ततः सुखेतुस्तपि देवरातो महीपते तस्माद्बृहद्रस्तस्य महावीर्य सुधितां सुधित्तेधिष्ठकेतुर्वैहर्यस्वोऽथ मरुस्ततः मरो प्रतीपकस्तस्माज्जात कृतिरथो यतः देवमेढस्तस्य सुतो विश्रुतोऽथ महाधितिः कितिरात् ततस्तस्मान्महारो माथ तत्सुतः स्वर्णरोमासुतस्तस्य ह्रस्वरोमा विजायत तत सीरध्वजो यज्ञे यज्ञार्थं कर्षतो महिं सीतासीराग्रतो जाता तस्मासीरध्वज स्मितः कुशध्वजस्ततस्य पुत्रस्ततो धर्मध्वजो निपः धर्मध्वजस्थितो पुत्रौ कृतध्वजमितध्वजौ भजा कृतध्वजात् केशिध्वज खाण्डिक्यं सोमृतध्वजात् कृतध्वजान्ध्वजस्तुतो राजन्नात्मविद्याविशारदः खाण्डिक्यकर्मतत्त्वज्ञो भीतकेशिध्वजात् धृत्वातः भानुमास्तस्य पुत्रो भुञ्छत्यनुम्न स्तुतस्तुतः सुजेस्तत्तनयं तस्मा सन्नद्वाज ततोऽभवत् ऋधुके तु शनद्वाजान् अजोथपूरिजेस्तुतः हरिष्टनयमि तस्यापि सुतायुस्तत्सु पार्व पार्श्वकः ततश्चित्ररथो यस्य क्षेमधीं मिथिलाधिपः तस्मा समरथस्तस्य सुतसत्यरथस्ततः आसि गुप्तो आसीदुपगुरुस्तस्मान्दुपजगुप्तोऽग्निसम्भवः वस्मनन्तोऽ तत्पुत्रो युधो यत् भाषणः श्रुतस्ततो जयत्तस्माद्विजयोस्मादृतश्रुतः सुनुकस्तत्सुतो यज्ञे वीतः व्योधितेस्ततः बहुलाशोधितेस्तस्य कृतिरस्य महावशी एते वै मैथिलाराजन्नात्मविद्याविशारदाः योगेश्वरप्रसादेन द्वन्द्वैर्मुक्ता गृहेष्वपि इति श्रीमद्भागवते महापुराणे पारमहिषां शयितायां नु स्कन्दे निमीवंसानुवर्णनं नाम त्रयोदशोऽध्यायः